अत तैत्त्रिय आरण्यः द्वितीयप्रश्नप्रारम्भः ॐ नमो ब्रह्मणे नमो अस्त्वज्ञये नमः पृथिव्ये नमो ओषधेभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ओम् शान्तिःशान्तिः सह वै देवानाम् चासुराणाम् च यज्ञौ प्रततावास्ताम् वयज्ञस्वर्गल् लोकमेष्यामो भयमेष्यामदितितेऽसुराः सन्न सहसैवाचरन् ब्रह्मचर्येण तपसैव देवास्तेऽसुरामुख्यगस्तेन प्राजानगस्ते पराभवन्तेन स्वर्गं लोकमायम् प्रसृतेन वै यज्ञेन देवाः स्वर्गं लोकमायन्न प्रसृता श्रुते नासुरान् पराभावयन् प्रसृतो हवैयज्ञोपवीतिना यज्ञा प्रसृतो न पवीतिना यत्किञ्च ब्राह्मणा यज्ञोपवीत्यधीते यजत एव तत्तस्माद्यज्ञोपवीत्येवाधीतया जगेद्यजेत वा यज्ञस्य प्रसृत्या अजिनं वासो वा दक्षिणत उपबीय दक्षिणं बाहुमुद्धरते वधत्ते सव्यमिति यज्ञोपवीतमेतदेव पवेतम् प्राचेनावेतगम् संवेतम् मानुषम् रक्षागुंसि हवा मुनोऽनुवाके तपोग्रमतिष्ठन्त तान् प्रजापतिर्वरेणोपामन्त्रय वा एते ब्रह्मवादिनः पूर्वाभिमुखाः सन्ध्यायाङ्गाय त्रियाभिमन्त्रिता ऊर्ध्वम् विक्षिपन्ति ता एताज्रीभूत्वा तानि रक्षागुंसि मन्दे हारुणे द्वीपे प्रक्षिपन्ति यत् प्रदक्षिणम् प्रक्रमन्दितेरपात्मानबवधून्वन्त्युद्यन्तमस्त्यन्तमाधित्यमभिध्यायम् कुर्वन् ब्राह्मण विद्वान् सकलम् भद्रमश्नुते सावादित्यो ब्रह्मेति ब्रह्मैव सम्ब्रह्माप्येति य एवम् वेद यद्देवा देवहेलनम् देवासश्च कृमा वयम् आदित्यास्तस्मान्मामुञ्च कर्तस्य ते न मामित देवा जीवनकाम्यायद्वाचारुतमो दिम तस्मान्न हिहमुञ्च ऋतेन द्यावा पृथिवी ऋतेन त्वगुं सरस्वती कृतान्नः बाह्येन सो यत्किञ्चा नृतमोदिम इन्द्राग्नित्रावर्णौ सोमो धाता बृहस्पतिः तेनोमुञ्चन्त्वेन सो यदन्यकृतमाधिम स जातशपुंसाधुतजामि शपुंसा ज्यायसशगुंसाधुत वा कनेयसः धिष्टम् देवकृतम् यदेनस्तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि यद्वाचायन्मनसा बाहुभ्यामोरुभ्यामष्ठीवद्भ्यागुम् शिश्नैर्यदनृतम् च कृमाभयम् अग्निर्मा तदस्मादेन सौगार्हपत्याक्रमुञ्चमजानि दुष्कृता येन त्रितोर्णवान्यर्बभोवयेन सोऽन्तमसो निर्ममोच येनेन्द्रो विश्वा अजः दरातेस्तेनाहम् ज्योतिषा आक्षि यत्कुसीदमप्रतीत्तम् मये हयेन यमस्य निधिनाचरामि ये, ये तत्तदग्ने यन्मयि माता यदापि पेषयदन्तरिक्षम् यदा शसातिक्रामामित्रिते दे देवादिविजाता यदा पतिमम् मे वरुणतत्त्वायामि अग्ने सक्वन्नो अग्नेहत्वमग्ने अजासि यदरीयेव्यृणमहम् बभोवादित्सन्वासम् जगरजनेःभ्यः अग्निर्मा तस्मादिन्द्रश्च संविधानौ प्रमुञ्चताम् यद्धस्ताभ्याम् चकरकिल्बिषाण्यक्षाणाम्बग्नमपजिघ्नमानः उग्रम्बस्या च राष्ट्रभिच्छतान्यप्सरसा वनुदत्तामृणानि उग्रम्बस्ये राष्ट्रभित्किल्बिषाणि यलक्ष्यवृत्तमनुदत्तमेतत् नेन्न ऋणा नृणभयित्समानो यमस्य लोके अधिरज्जुराय अवते हेळ उदुत्तममिमम् मे वरुण अग्ने सत्वन्नो अग्ने सङ्कुसुको विकुसुको निरुतो यश्च निःस्वनः ते हे स्मद्यक्ष्मनागसो दूराद्दूरमचीचतम् निर्यक्ष्ममचीचते कृत्याम् निर्वृतिम् च तेन योस्मत्समृच्छाति ते तमस्मै प्रसुवामसि दुःश्रंसानुषगुंसाभ्यान् घनेनघनेन च ते नान्यो ओस्मत्समृच्छाते तमस्मै प्रसुवामसि संवर्चसा प्रियसा सन्तनोभिरगन्महिमनसा सगुम् शिवेन पष्टानोऽत्र विदधातु राजोऽनुमार्ष्णुतन्वो ओ यद्विलिष्टम् आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः पुनस्ते प्राण आयाति सुवामिते लक्ष्मकुम् सुवामि ते आयुर्घा अग्नेः विषो जुषाणो घृतप्रतीको घृतयो निरेधि घृतम् पीत्वा मधुचारुगव्यम् हितेव पुत्रमभिरक्षतादिमम् इममग्न आयुषे वर्चसे कृधिग्मोदो वरुणसगुंसिषाधि मातेवास्मा अदिते देवा जरदष्टिर्यथा सत् अग्न आलोगुम् शिपवस आसुवोर्जमिषञ्चनः आरेबाधस्वदुच्छुना अग्नेपवः स्वप अस्मे वर्चः सुवीर्यम् दधद्रयिम् मयि पोषम् अग्निर्षिः पवमानः पाञ्चजन्यः पुरोहितः तमीमहेमहादयम् अग्ने, अग्ने, तमी अग्ने जातान् अभिनय दीदिः सुमनाहेण धर्मन्ते श्याम त्रिवरोध उद्भौ सहसा जातान् प्रणुदानः स्वपत्नान् प्रत्यजातान् जातवेदोऽनुदस्व अधिनो ब्रूहि सुमनस्यमानो वैयज्ञस्याम प्रणुदानः स्वपत्नानि आग्ने यो नोऽभितो जनो वृको अग्ने समानो यो समानो यश्च निष्ट्यः तम् मयगुम् समिधम् कृत्वा यो नः शपादशपतो यश्च नः शपथः शपाद कुशाश्च तस्मै निमृत्य सर्वम् पापगुम् समूहताम् यो नः सपत्नो यो रणो मर्तोऽभि देवाः विध्मस्यैव प्रक्षायतो मातस्योच्छेषिकिञ्चन यो मान्द्वेष्टिजातवेदो यन् चाहन्द्वेष्मियश्च माम् सर्वाभिस्तानग्ने सन्दहजागिष्ठाहन्द्वेष्मिये च माम् यो अस्मभ्यमरातेजाद्यश्च नो द्वेषते जनः इन्दाद्यो अस्मान् दिप्साः च सर्वाभिस्तान्वश सर्वंशितम् मे ब्रह्म सर्वंसितम् वेर्या अम्बलम् सर्वं सितम् क्षत्रम् मे जिष्णु यस्याहमस्मि पुरोहितः उदेषाम् बाहो अतिरमुद्वर्चो रथोबलम् शृणोमि ब्रह्मणामित्रानुन्नजामि स्वाहा अहम् पुनर्मनः पुनरायुर्मागात् पुनश्चक्षः पुनः श्रोत्रम् म आगात् पुनः प्राणः पुनराकूतम् मागात् पुनश्चित्तम् पुनराधीतम् मागात् वयेश्वानरो मेदभ्यस्तनूपा अपबाधतान्दुलितानि विश्वा वैश्वानराय प्रतिवेदयामो यदी नृणगुम् सङ्करो देवतासो स एतान् पाशान् प्रमुशम् प्रवेदसदामुञ्चादुतादवद्यात् वैश्वानरः पवयान्नः पवित्रैर्यत्सङ्गरमभिधावाम् यासाम् अनाजानन् मनसा याचमानो यदत्रै नो अमीये अमी सुभगे दिवि विश्रुतौ नाम तारके देहामृतस्य यच्छतामेतद्बद्धकमोचनम् विजयेष्वलोकान्कृधिबन्धान्मञ्चासि बद्धतम् योनेरिव प्रच्युतो गर्भः सर्वान् पथो अनुश्र स प्रजानन् प्रतिगर्भीत विद्वान् प्रजापतिः प्रथमचारुतस्य अस्माभिर्दत्तम् जरसः परस्तादच्छिन्नन्तन्तुमनुसञ्चरेम ततन्तरन्तुमन् रेखे अनुसञ्चरन्ति येषाम् दत्तम् अबन्ध्वे के ददतः प्रयच्छाद्दातुम् चेच्छक्रवागुंसः स्वर्ग एषा आरभेछा मनुसगुं रभेछागुंसमानम् पन्थामवथो घृतेन यद्वाम् प्रोक्तम् परिविष्टम् यदग्नौ तस्मै गोत्राजेह जाजापति सगुं रभेछाम् यदन्तरिक्षम् पृथिवीमुद्याञ यन्मातरम् पितरम् अग्निर्मा तस्मादेन सोगार्हप्रत्यपुन्नो नेषद्दुरिता यानि च कृमा भूमिर्मातादित्यर्मो जनित्रम् भ्रातान्तरिक्षमभिशस्तयेनः यौर्नः पितापि धृजाच्छम्भवासि जामि मित्त्वा मात्सि लोकात् यत्र सुहार्दः सुकृतो मदन्ते आयरोगन्तन्वा आदिस्वायाम् अश्रोणाङ्गैरहृताः स्वर्गे तत्र पश्येम पितरम् च पुत्रम् यदन्नमज्ञनृतेन देवा दास्यम् न दास्यम् कृतवाकरिष्यन् यद्देवानाम् च क्षश्या अस्ति यदेव किञ्च प्रतिजग्राहमन्निर्मातस्मादृढम् कृणोत् यदन्नमग्नि बहुधा विलोपम् वासो हिरण्यमुत यद्देवानाम् चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमन्निर्मातस्मादृणम् कृणोत् यन्मया मनसा वाचा कृतमेनः कदाचन सर्वस्मात्तस्मान्मे नमोग्धित्वकम् हि वेद्ध यथा तथम् दर्शना हवा ऋषय श्रवणा ऊर्ध्वमन्थिनो बभो वस्तानुषयोऽर्थमायग्रस्ते निलायमचरग्रस्ते नु प्रविशुः कोष्माण्डानितागस्तेष्वन्वविन्दन् श्रद्धया च तपसा च राषयो ब्रुवन् कर्तानिलायञ्च रचेति च ऋषेण ब्रुवन् नमा वास्तु भगवन्तोऽस्मिन् धान्निकेनवः ब्रोतये नरेपसस्यामेति तजेतानि सूक्तान्यपश्यन् यद्देवा देवहेल नञ्जीयेव्यृणमहमभोवायुष्टे विश्वतो दधदित्येतैराज्यञ्जुहृत वैश्वानराय प्रतिवेदयाम इत्युपतिष्ठतय दर्वाचीनमेण भ्रूणहत्यायास्तस्मान्मोष्यध्व इति तजेतैरजुहुस्ते रेपसो भवन्कर्मा विश्वेते निर्जुहयात् पूतो देवलोकान् समश्नुले ष्माण्डैर्जुहृजाद्योपोत इव मन्येत यथास्तेनो यथा भ्रूणहैवमेष भवति यो यो नौरेतस्य च ति यदर्वाचीनमेनो भ्रूणहत्या यास्तस्मान्मुच्यते ीक्षितो भवति यो मासस्य संवत्सरः संवत्सरा देवात्मानं पुनीते चतुर्विंशति रात्रे अर्देक्षितो भवति चतुर्विंशति अर्धमासास्संवत्सरः संवत्सरा देवात्मानं पुनीते द्वादश रात्रे एर्देक्षितो भवति द्वादशमासा संवत्सरः संवत्सरा देवात्मानं पुनीते षड्रात्रेऽर्देक्षितो भवति षड्वा ऋदवः संवत्सरः संवत्सरा देवात्मानम् पुनीते तिस्रो रात्रेर्द्वेक्षितो भवति त्रिपदा गायत्रे गायत्रिया एवात्मानम् पुनीते नमः पुंसमश्नेजान्नस्त्रिजमुपेजान्नौपर्यासेतजगुप्सेतानृतात्मजो ब्राह्मणस्य व्रतञ्जभागो राजन्यस्याभिक्षा वैश्यस्यासौ सौम्येऽप्य ध्वर एतद्धृतम् ब्रोजाद्यधिमन्येत मृतस्यामेत्यदनन्धानाः सक्तो धृतमित्यनुव्रतयेदात्मनोऽनुपदासाय अजान् हवे पृश्ने गस्तपश्यमानान् ब्रह्म स्वयं भवभ्यानर्षत्कर्षजो भवन्तदृषिणा ऋषित्वङ्गान्देवतामुपातिष्ठन्त यज्ञकामास्तजेतं ब्रह्म यज्ञमपश्यन्तमाहरं तेना यजन्त यदृचोऽध्यगेष ताः पय आहुतयो देवानामभवद् यद्यजोगुंशिघृताहुतयो यत्सामानि सोमाहुतयो यदथर्वाङ्गिरसोमध्वाहुत तयो यत् ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाधाराशभंसेर्मे दाहुतयो देवानामभवन्ताभिः क्षुधम् पाप्मानमपाघ्नन्नपहतपाप्मानो देवाः स्वर्गम् लोकमार्यन् ब्रह्मणः सायुध्य मृषयो गच्छन् पञ्चवा एते महायज्ञाः सदति प्रतायन्ते सदति सन्दिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञा ब्रह्म यज्ञ इति यदज्ञो जुहोत्यपि समिधम् तद्देव यज्ञः सन्धिष्ठते यत्पितृभ्यः स्वधा करोत्यप्यपस्तत्पितृयज्ञः सन्धिष्ठते यद्भूतेभ्यो बलिगम् हरति तद्भूतयज्ञः सन्धिष्ठते यद्ब्राह्मणे न्ददाधि तन्मनुष्य यज्ञः सन्धिष्ठते गजवाध्यायमधीयते कामप्यृतै यदुस्ताम वा तद्ब्रह्म यज्ञः सन्धिष्ठते गदृचोते पयसः कोल्यास्य पित्रा स्वधा अभिवहन्ति यद्यजोगं शिघृतस्य कोऽल्यायत्सामानि सोमदेभ्यः पवते गदथर्वाङ्गिरसोमधोः कोल्यायद्ब्राह्मणा नेति सान् पुराणानि कल्पान् गाथा नाराशतंसेर्मे दशपोल्या अस्य मित्र स्वधा अभिवन्ति यदृचोधीते पय आहुतिभिरेवत देवागस्तर्पयत् यद्यचोंशिघताहुतिभिर्यत्सामानि सोमाहुतिभिर्यदथर्वाङ्गिर सोमध्वाहुतिभिर्यत् ब्राह्मणानितिहासान् पुराणानि कल्पान् गाथा नाराशुंसेर्मे दाहुति भिरेव तद्देवागस्तर्पयति अजेन त्यक्ता आयुषा तेजसा वर्चसा सृजायुषसा ब्रह्म वर्चसे नान्नाद्येन च तर्पयन्ति ब्रह्म यक्षेन यक्ष्यमाणः प्राच्याम् दिशि ग्रामादशर्घर्ष उदेक्ष्याम् प्रागुदीच्याम्बोधित आदित्ये दक्षिणत उपबीजो भविष्यहस्ताभवनित्यत्रि राजा मेद्विः परिमृज्य सकृदुपस्पृश्यशिरश्चक्षुषे परिमृजति ते मृगजो वंश येण सामानि यत्सव्यम् पाणिम् बादौ प्रोक्षति यच्छिरश्चक्षुषे नासिके श्रोत्रे हृदयमालभते तेनाथर्वाङ्गिरस ब्राह्मणामीतिहासान् ते पुराणानि कृत्वा गाथा नाराश पुंसे प्रेणादि गर्भाणाम् महदुपस्थैर्योपस्थम् धृत्ता प्राणासीनः साध्यायमधीयीतापाम्बा एष ओषधीनाम् तुम् रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते दक्षिणोक्तरूपाणि पादौ कृत्वा स पवित्रा भोमिति प्रतिपद्यत एतद्वै चतुष्टयीम् विद्याम् प्रत्येषा वागेतत्परममक्षरम् तदेतदृचाभ्युक्तमृतो अक्षरे परमे व्यस्मिन् देवाद्यषे दुर्यस्तन्न वृचा करिष्यति यद्युतुस्त ेव प्रायुङ्कोर्भुवः स्वरित्याहैतद्वै वाचः सत्यम् यदेव वाचः सत्यन्तप्रायुङ्काच साभित्रेन्दायत्रेम् त्रिरन्वाहवच्छोर्धर्चस न वा नगुंसहिता श्रियः प्रसविताश्रियमेवाप्नोत्यथा प्रज्ञातगेव प्रतिपदा छन्दा गुंसि प्रतिपद्यते ग्रामे मनसा स्वाध्यायमधीजेतदिवानक्तम् वेति हस्मा ह शौच आह्नेय उतारण्ये बल उत वाचोत तिष्ठन् नृत व्रजन् लुतासीनः दशया नोऽधीजीतैव तपस्वी पुण्या भवति देवं विद्वान् स्वाध्यायमधीते तमो ब्रह्मणे नमा अस्त्वग्रजे नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि मध्यम् दिने प्रबलमधीजीतासौ खलु वावैष आदित्योरिद्राह्मणस्तस्मात्तर्हिते क्ष्ष्ठन्तपतितदेशाभ्युक्ता चित्रम् देवानामुदगादनीकञ्चक्षर्मित्रस्य आप्राद्या वा पृथिवी अन्तरिक्षकम् सोऽ आत्मा जगतस्तस्थुषश्चेति स वा एष यज्ञः सद्यः प्रदायते सद्यः सन्तिष्ठते तस्य प्राक् सायमवभृथो नमो ब्रह्मण इति परिधानी जान्त्रिरन्वाहाप उपस्पृश्य गृहा नेति तथो यत्किञ्चददाति सा दक्षिणा स्य वा एतस्य यज्ञस्य मेघो ह विर्धानम् विद्युदग्निर्भर्षतुम् हविस्तनयत्नर्पषट्कारो जतवस्थोर्जति सोऽनवषट्कारो वायुरात्मावास्याष्टकृद्य एवं विद्वान्मेघे भर्षति विद्योतमाने पवमाने वायावमावास्यायागस्वाध्यायमधीते तप तपो हि स्वाध्यायहित्युत्तमम् नागम् रोहत्यम् तपः स्वानानाम् भवति यावन्तगुम् भवादिमाम् वित्तस्य पूर्णाम् ददत्स्वर्गम् लोकण्ठयति तावन्तम् लोकण्ठयति भोजागम् सञ्चाक्षय्यप पुनर्मृत्युम् जयति ब्रह्मणः सायुध्यम् गच्छति तस्य वा एतस्य यज्ञस्य ध्वापनध्यायो यदात्माशु चर्यद्देशः समृद्ध्यर्दैवतानि य एवम् विद्वान्महारात्र उषस्युजिते व्रजग्रस्तिष्ठन्नासीनश्च जानोऽ ग्रामे वा यावत्तरसग्रस्वाध्यायमधीते सर्वान् लोकाञ्जयति अनना अस्मिन्नः परस्म्यस्तृती जय लोके अर्णाश्चाम ये देवजाना उतपि त्रिजाणाः सर्वान्पथोऽणाक्षी जयमेत्यज्ञिं वै जातं पाप्मा जग्राहतं देवा आहुतिभिः पाप्मानमपाघ्नमाहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिर्दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिश्चन्दसाघ स्वाध्यायेनापहत पाप्मा स्वाध्यायो देव पवित्रम् एतत्तश्रयत्यभागो वाचि भवत्यभागो नाकेतदेशाभ्युक्ता यस्ति त्याज सखिविदकम् सखायन्न तस्य वाच्यपि भागोऽस्ति यदेकम् शृणोत्यलकदम् शृणोति न हि प्रमेद सुकृतस्य पन्थापि तस्मात् स्वाध्यायोऽध्येतव्योदेयम् क्रतुमधीते तेन तेनाश्येष्टम् भवत्यग्नेर्वायोरादित्यस्य सा गच्छति तदेशाक्ता ये सर्वामुत वा पुराणे वेदम् यद्वागुम् समभिवदन्त्यधित्यमेव ते परिवदन्ति सर्वे अग्निम् वितीयन् तृतीयञ्च हगुम् समिति यावती देवतास्ताः सर्वा वेदविधि ब्राह्मणे वसन्ति तस्माद् ब्राह्मणेभ्य वेदविद्यादिवेदि वेदवस्पुर्यान्ना श्रीलङ्केर्तये देता एव देव प्रेणातिरिक्ष्यत चिबवा एष प्रेमरिक्ष्यते योजा जयति प्रति वा गृह्णाति जा जयित्वा प्रतिगृह्यवा नश्नन्ति स्वाध्यायम् वेदमथीजेतत्रिरात्रम् वासाभित्रेऽङ्गायत्रीवन्वातिरेचयति वरो दक्षिणावरेणैव वर्गस्पृणात्यात्मा हि वरः दुरे ह वा एष छन्दा गुंसि यो या जयति स येन यज्ञ क्रतुना या जयेत् सौरण्यम् परेत्यशुचो देशे स्वाध्यायमेवैरमधीयम् नासीत तस्या प्राणो हविः सामा ध्वर्य वा एष ृद्धतरः अधिभावके चतुर्थेत्याहुर्ब्रह्मवादिना मरुतः प्राणैरिन्द्रं बलेन बृहस्पतिं ब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेण तस्यैतान् र्णास्मि कामकामाय स्वाहाकामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि धत्ते हुत्वा प्रयताञ्जलिः कवातिर्यग्निमभिमन्त्रयेत सम्मासिञ्जन्त्वमरुतः समिन्द्रः सर्माजमग्निसिञ्चत्वायुषा च बलेन चायुष्मन्तं नरोतमेति प्रतिहास्मै मरुतः प्राणाङ्गधति प्रतीन्द्रबलं प्रति बृहस्पतिर्ब्रह्मवर्चसंप्रत्यग्निरितरत् सर्वं सर्वतनुर्भो त्वा सर्वमाजुरेदित्रिरभिमन्त्रयेतत् त्रिषत्याेतसुहुरादित्थमभिमन्त्रयेत पुतदेवात्मानमाजुर् त्मन् धत्ते वरो दक्षिणा वरेणैव हि वरः भोः प्रपद्ये भुवः प्रपद्ये स्वः ब्रह्मकोशं प्रपद्ये मृतं प्रपद्ये मृतकोशं प्रपद्ये चतुर्जालं ब्रह्मकोशैयम् मृत्युर्न पपश्यतितं देवान् प्रपद्ये देवपुरं प्रपद्ये परिवृतो परिवृतो ब्रह्मणा ब्रह्मणा हन्तेसा कश्चपश्यस्मै नमस्तच्छिरो ्रह्मात्तराहनर्यज्ञाधरा विष्णुरृदयगुम् संवत्सरः प्रजननमश्विनौ कोऽपादा भक्त्रर्मध्यं मित्रावरुणावपरपादा वग्निः कुजस्य प्रथमाकाण्डन्ददयि नस्ततः प्रजापतिरभजञ्च तुच्छगं स वा एष दिव्यश्च शिशुवा हस्तगं हय एवं वेदाप पुनर्मृत्युं च जयति स्वर्गं लोकं नाथ प्रमीयते नाग्नौ प्रमीयते नाप्सु प्रमीयते नपत्यः प्रमीयते लघ्वान्न भवति ध्रुवस्त्वमसि ध्रुवस्य क्षितमसि त्वम् भूतानामधिपतिरसि त्वम् भूतानागश्रेष्ठसित्त्वाम् भूतान्युपपर्यावर्तन्ते नमस्ते नमः सर्वन्ते नमो नमः शिशुकुमाराय नमः नमः प्रादिशेयाश्च देवता एतस्याम् प्रतिवसन्त्येताभ्यश्च नमो नमो दक्षिणायै दिशेयाश्च देवता एतस्याम् प्रतिवसन्त्येताभ्यश्च नमो नमः प्रतीच्ये दिशेयाश्च देवता एतस्याम् प्रतिवसन्त्येताभ्यश्च नमो नम उदीच्ये दिशेयाश्च देवता एतस्याम् प्रतिवसन्त्येताभ्यश्च नमो नमऊर्ध्वायि दिशे देवता एतस्यां प्रतिभसञ्जेताभ्यश्च नमो नमो धराय दिषेजाश्च देवता एतस्यां प्रतिभसञ्जेताभ्यश्च नमो नमो बान्तरायि दिशेजाश्च देवता एतस्यां प्रतिभसं चेताभ्यश्च नमो नमो गङ्गायमनयोर्मध्ये ये वसन्ति प्रसन्नात्मानश्चिरम् जीवितम् नमो गङ्गायमुनयोर्मुनेभ्यश्च नमो नमो गङ्गायमुनयोर्मुनेभ्यश्च नमः नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नमो ओषधेभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि दिःशान्तिः इति तैत्त्रिय आरण्यः द्वितीयप्रश्नः समाप्तः